नारदपुराणं पूर्वार्थम् अध्यायं नैन्टी नैन् श्रीब्रह्मोवाच अथा दसम्प्रवक्ष्यामि तवाज्ञेय पुराणकम् ईशानकल्पवृत्तान्तं वसिष्ठाया नलो ब्रवीद तत्पञ्चदशसहस्रं नानाचरितमद्भुतं पठदां शृण्वतां चैव सर्वपापहरं नृणां प्रश्नपूर्वम् पुराणस्य कथा सर्वावतारजा सृष्टिप्रकरणम् चाध विष्णुपूजादिकम् ततः अग्निकार्यम् तद पश्चान्मन्त्रमुद्रादिलक्षणम् सर्वदीक्षाविधानम् च अभिषेकनिरूपणम् लक्षणमण्डलादीनाम् कुशापामार्जनम् ततः पवित्रारोपणविधिर्देवालयविधिस्ततः शालग्रामादिपूजाज मूर्तिलक्ष्म पृथक् पृथग न्यासादीनां विधानं च प्रदिष्टा भूतकम् ततः विनायकादिपूजा च नानादीक्षा विधिपरं प्रदिष्टा सर्वदेवानां ब्रह्माण्डस्य निरूपणम् गङ्गादितीर्थमाहात्म्यं द्वीपवर्षानुवर्णनम् धो लोकरचना ज्योतिश्चक्रनिरूपणं ज्योतिषं च ततः प्रोक्तं शास्त्रं युद्धजयार्णवं षट्कर्म च ततः प्रोक्तं मन्त्र मन्त्रौषधीगणः कुब्जिकादिसमर्चत्वं सोढान्यासविधिस्तदा कोडिकोमविधानं च मन्यन्तरनिरूपणम् ब्रह्मचर्यादिधर्मांश्च श्राद्धकल्पविधिस्ततः ग्रहयज्ञस्ततः प्रोक्तो वैदेकस्मार्तकर्म च प्रायचित्तानुकथनम् तिथिनां च व्रतादिकम् वारव्रतानुकथनम् नक्षत्रव्रतकीर्तनम् मासिकव्रतनिर्देशोद्दीपदानविधिस्तथा नवव्यूहार्चनम् प्रोक्तम् नरकाणाम् निरूपणम् प्रदानाम् चापि दानानाम् निरूपणमिहोदितम् नाडीचक्रसमुद्देश्य सन्ध्याविधिरनुत्तमः गायत्र्यार्थस्य निर्देशो लिङ्गस्तोत्रम् ततः परम् राज्याभिषेकमन्त्रोक्तिर्धर्मकृतम् च भूभुजाम् स्वप्नाध्यायस्तदप्रोक्तशगुनादिनिरूपणं मण्डलाधिकनिर्दें सो रत्नदीक्षाविधिस्ततः रामोक्तनिधिनिर्देश्यो रत्नानां लक्षणं ततः धनुर्विद्या तद प्रोक्ता व्यवहारप्रदर्शनं देवासुरविमर्दाख्याख्यायुर्वेदनिरूपणं गजादीनां चिकित्सा च तेषां शान्तिस्ततः परं चिकित्सा जनानापूजास्ततः परम् शान्तयश्च विविधश्चन्द्रशास्त्रमतः परम् साहित्यम् च ततपश्च देकार्णादिसमाह्वयः सिद्धशब्दानुषिष्टिश्च कोशः सर्गादिवर्गकः प्रलयानाम् लक्षणम् च शारीरकनिरूपणम् वर्णनमरकाणाम् च योगाशास्त्रपरम् ब्रह्मज्ञानं तदपश्चात्पुराणश्रवणे फलं ये दधाग्ने यगं विप्रपुराणं परिकीर्तितं तल्लिखित्वा तु यो दद्या सुवर्णपालमान्वितं तिलधेनुयुतं चापि मार्गशीर्ष्यां विधानतः पुराणार्थविदेशोऽधस्वर्गलोके महीयदे येषानुक्रमणि प्रोक्ता तवाग्नेयस्य मुक्तिदा कृणोदां पठदाम् चैव नृणां चेह परत्र च इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादज्ञि पुराणानुक्रमणीनिरूपणं शततमोध्यायः ओम्